स्वस्ति प्रजाभ्यः परिपालयन् ताम् न्याय्येन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयम् क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदाम् शतम् चरितम् रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् प्रोक्तम् महापातकनाशनम् शृण्वन् रामायणम् भक्त्या यः पादम् पदमेव वा स याति ब्रह्मणस्थानम् पूज्यते सदा रामाय राम रामचन्द्राय मेधसे रघुनाथाय नाथाय सीतायाः पतये नमः यन्मङ्गलम् सहस्राक्षे सर्वदेव नमस्कृते वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम् यन्मङ्गलम् सुपर्णस्य विनता कल्पयत्पुरा अमृतम् प्रार्थयानस्य तत्ते भवतु मङ्गलम् मङ्गलम् कोसलेन्द्राय महणीय चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् अमृतोत्पादनेदैत्यान्घ्रतो वज्रधरस्य यत् अदितिर्मङ्गलम् प्रादात्तत्ते भवतु मङ्गलम् त्रीन् प्रक्रमतो विष्णो रमिततेजसः यदासीन्मङ्गलम् राम तत्ते भवतु मङ्गलम् ऋषयः सागराद्वीपा वेदालोकादिशश्च मङ्गलानि महाबाहो दिशन्तु तव सर्वदा कायेन वा च मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलम्बरस्मै नारायणायेति समर्पयामि